गणेशपुराणं क्रीडाखण्डम् अध्यायं 143 एण्ड् गजानन उवाच ईदृशं विद्धिमे तत्वं मद्गदेनान्तरात्मना यज्ञात्वा मामसन्दिग्धं वेत्सि मोक्ष्यसि सर्वगम् तत्तेखं शृणु वक्ष्यामि लोकानां हितकाम्यया अस्ति ज्ञेयं यदो नान्यन्मुक्तेश्च साधनं नृप ज्ञेयामत्प्रकृतिः पूर्वं तदस्याज्ञानगोचरः ततो विज्ञानसम्पत्तिर्मयिज्ञादे नृणां भवेद क्व नलोकमहङ्गारकं चित्तं धीसमीरणः रवीन्दुयागकृचैका दशधा प्रकृतिर्मम अन्यां मत्प्रकृतिं वृद्धां मुनयसङ्गिरन्ति च तदा त्रिविष्टपं व्याप्तं जीवत्वं गदयानया भ्यामुत्पाद्यते सर्वं चराचरमयं जगद सङ्गाद्विश्वस्य सम्भुधि परित्राणं लयोऽभ्यहं तत्त्वमेदन्निबोद्धुं यतते कश्चिदेव हि वर्णाश्रमवदां पुंसां पुराचीर्णेन कर्मणा साक्षात्करोदिमां कश्चिद्यत्नवत्स्वपि तेषु च मत्तोऽन्येक्षदे किञ्चिन्मयि सर्वं च वीक्षते श्रुतौ सुगन्धरूपेण तेजोरूपेण चाग्निषु प्रभारूपेण पुण्यब्जे रसरूपेण चाप्सु धीतपो बलिनां चाहं धीस्तपो बलमेव च त्रिविधेषु विकारेशु मदुत्पन्नेष्वहं स्थितः न मां विन्दन्ति पापीयान् माया मोहिदचेदशः त्रिविकारा मोहयधिक्प्रकृतिर्मे जगत्त्रयम् यो मे तत्त्वं त्यजदि त्यजति सोऽखिलम् अनेकैर्जन्मभिश्चैवं ज्ञात्वा मां मुच्यते ततः अन्ये नानाविधान् देवान् भजन्ते तान् व्रजन्ति ते यथा यथा मदिं कृत्वा भजदे मां जनोऽखिलः तथा तथा स्यदं भावं पूरयाम्यहमेवदम् अहं सर्वं विजानामि मां न कश्चिद्विबुध्यते अव्यक्तं व्यक्रिमापन्नं न विधुक्कामोहिताः नाहं प्रकाश्यतां यामि अज्ञानां पापकर्मणां यस्मृत्वा त्यजति प्राणमन्दे मां श्रद्धयान्विदः स यात्य पुनरावृत्तिं प्रसादान्मम भूभुज यं यं देवं स्मरन् भक्त्या त्यजति स्वं कलेवरम् तत्तत्सालोक्यमायादितत्तद्भक्त्या नराधिप अधश्चाहर्निशम्भूपस्मर्तव्योनेकरूपवान् सर्वेषामप्यहं गम्य श्रोद सामर्णवो यथा ब्रह्म विष्णुशिवेन्द्राद्याल्लोकान् प्राप्य पुनः पतेद यो मामुपैत्यसन्दिग्धः पतनं तस्य न अनन्य, अनन्यशरणो यो मां भक्त्या भजति भूमिप योगक्षेमौ च तस्याहं सर्वदा प्रतिपादये द्विवित्था गतिरुद्दिष्टा शुक्ला कृष्णा नृणा नृप एकया परमं ब्रह्मपरया यादि संसृतिम् ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषद्धार्थगर्भासु योगामृद्धार्थशास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिदेशी गजाननवरेण्यसंवादे योगावृत्तिबुद्धियोगो नाम षष्ठोऽध्यायः ॐ